प्राप्तश्च प्रार्थनीयघा सुदती वदति च वामे कामे कामेषु कामे कामेषुभिन्नौ वपुः तिमृदौरं पश्य पश्यालिकस्य मानौ मौनं च माया सखी सुखयरदौ सत्वरादित्वरात्वम् ग्रन्तुः भर्तुः अधूनाम् अभिरषितसुखप्रापणः स्ल